षिणीं सुमधुरं क्षमाङ्गी मस्तिकसूक्तिम् ये नमः ॐ गणानाम् त्वा गणपतिप्रभवामहे कविम् कवीनाहुश्रवस्तमम् ्रह्मणाम् ॐ महागणपतये नमः प्रणो देवी सरस्वती वाचेभिर्वाचिनीवती धी नाम विद्र्यवतु वाग्देव्यै नमः Let's chant the Sri Yudra, uh, prasna, uh, together, Om Namo Bhagavate Rudraya till Okay, slowly. So लेस् चाण्ड् दीरुद्र प्रश्न टुगेदर् ओम् नमो भगवते रुद्राय अटिल् तर्वा आश्चया तु धान्यः ओके स्लोलि Om Namo Bhagavate Rudraya Namaste Rudra नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुत ते नमः यात इषु शिवतमा शिवम् बभूव ते धनुः शिवा शरव्यायातवत या नो रुद्रमृडय या ते रुद्रशिवातनूरखोरापापकाशिनी तया नस्तनुवा शन्तमया गिरिशन्थाभिषाकिशीः यामेषुम् गिरिशन्त हस्ते बिभर्ष्यस्तवे शिवाम् गिरित्रताम् कुरु माहि गुंसीः पुरुषम् जगत् शिवेन वचसात्वा गिरिशाच्छावदामसि यदा नः सर्वमि जगदयक्ष्मघुं सुमना असत् अध्यवोचदधिवक्ता प्रथमो दैव्यो विषक अहिं भजन् सर्वा आश्चयादु धान्यः विव्रिबडी ओके वित् देट् सो फार् I know Urodaran is ready. Yeah, so whoever wants to practice, they can go say once. So essentially that way we can go around, right? So we don't have to worry about uh, only me saying it. So this way, you also get to practice. Okay, I am still pretty bad at this. Uh, I'll try first. Yeah, you know, that's why. The thing is, the more you practice, it becomes easier, just like music. Okay, so. <laughs> Om Namo Bhagavate Rudrayam नमस्ते रुद्रमन्यव उतोत इशवे नमः नमस्ते अस्तु दन्वने बाहुभ्यामुत ते नमः यात इषु शिवतमा शिवम् बभूव ते दनुः शिवा शरव्यायतव शिवा शरव्या या तव तया नो रुद्रमृडया या ते रुद्रशिवा तनुरगोरापापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभि गिरिशन्ताभि चाकशीः यामिशु गिरिशन्त हस्तेभिभस्यस्तवे शिवां गिरित गिरित्रतां सोरि शिवां गिरित्रतां कुरु माहिंशि पुरुषम् जगत् शिवां गिरित्रतां कुरु मा कुरु मा गिरिशा गिरि गिरिशा च वदामसिटा शिवेन वा शिवेन वा च सा त्वा गिरिशा च वदामसि यथा न सर्व यथा न सर्वमिजगमगुं सुमना इस् ना फोरोड् बै विसर्ग फोर्ड् बै सकार बिकम् डबल् सकार यथा सर्वमि जगद यक्ष्मघं यथा न सर्वमि जगद यक्ष्मघम् यथा न सर्वमि जगदक्षग्मघुं सुमनास जगद यक्ष्मघु गोता यथा न सर्वमि जगदयक्ष्मगुंसुमना असत् अद्य वोच दधि वक्ता प्रथमो दैव्यो बिशक् अहिश्च सर्वान् जम्पयन् सर्वा सोरिपा सर्वा आम्भयन् अहि गिश्च सर्वान् जम्पयन् सर्वा आं जम्बयन् डब् आश्च सर्वायन् अहि गिश्च सर्वान् जम्पयन् सर्वाश्रयातु धान्यः वेरि Anybody else? Everybody else is okay? Okay, then we'll start learning the next one. Asaoyas Tamro Aruna Udha Bhabrasu Mangalaha I think I'll split it into two because it might be difficult. Asaoyas Tamro असौ यस्ताम्रो अरुण उद भभ्रस्सु मङ्गलः अरुण उत बभ्रुसु मङ्गलः अरुण उत बभ्रुस्सु मङ्गलः असौ यस्ताम्रो अरुण उद भभ्रस्सु ङ्गलः ताम्रो अरुण उट्रुमङ्गलः गुड् केन् एवरि बडि से दिस् बैम् स्लोलि बकाोस् विल् वन् केट् दिस्ट् एम् इ असौ यस्ताम्रो सारी से टुगेदर् वन् बै वन् वन् बै वन् ओके असौ यस्ताम्रो अरुण उत बभ्रुसु मङ्गलः असौ यस्ताम्रो अरुण उत बभ्रुस्सु मङ्गलः असौ यस्ताम्रो अरुण उत बभ्रसुमङ्गलः अरुण उत भगलः असौ यस्ताम्रो अरुण उत भुमङ्गलः असौ यस्ताम्रो अरुण उत भगलः दिङ्ग् इड्रेट विस्ताम्रो अरुण उत only when there is is a a you you you have have have to to join together otherwise okay. you don't have to say Aruna okay. Then Arun Uda, right? okay. Aruna plus Uda becomes Nagara and this thing it it should be combined but it doesn't happen so Aruna Uda, Arunaha, Uda yeah. because of the um, uh, that is, is uh -huh. discarded yeah. it followed by a Sora ओन्लिन् सन्ति उदाकार बिकाम् इ ङ्गलः ओके सोट् दर् इ वट हव टु से एक्से अरुण उत भुमङ्गलः so the thing whenever they say shanti we will say that way because babruhu plus mangala habikamse babrusu mangala double sara yeah. babrusu mangala okay so those okay. So those places we will do that accordingly the thing here is like you know just like english okay sometimes what is written is not what the, how is pronounced okay. so no otherwise you'll be saying horse divorces okay mm -hmm. i don't be orders okay so uh, okay. Sim similarly here the thing is if you read from the book You won't be pronouncing it right. So um, that's why it's good to have somebody uh, tell you how to read these things. Raghun, you shall want I to try? Shall I give it a try? Yeah. Shall I give it a try, uh, Hari? Sure. Okay. One more time. Asavyas. हरि असौ यस्ताम्रो अरुण उत भब्रुसुमङ्गलः असौ यस्ताम्रो अरुण उत भ ये रुद्रा अभितो ये रुद्रा अभितो ये रुद्रा अभितो दिक्षु श्रिधाः सहस्रशो वै शागुम् दिक्षु श्रुता सहस्रो वैम् दिक्षु श्रुता सहस्रशो वै दिक्षु श्रुता सहस्रशो वैशागुम् दिक्षु श्रुता सहस्रशो वैशागुमहे हेड इमहे हेड इमहे हे चेमोगु े क्षेमागु रुद्रा अभिथो दिक्षुता लिटिल् फास्टर् बिकास् वेन् वेरि स्लो अप् अण्ड् डौन् इल् बि डिफिकल् लिस्ट् फ़र् मी इट्स्ट् सो लेट् लिटल् फास्टर् इट् कम्स् औट् ओके लेट् डु गेट् टुगेदर् चे अभितो ो वैशागुं हेड इमहे माघो रुद्रा अभितो दिक्षुश्रुता सहस्रश्रो वैशागु हेडई इमहे वन् सो हरि बिफोर् द केन् यू चाण्डेट् वन्स ये क्षेमागुम् रुद्रा अभितो दिक्षुश्रिथा सहस्रशो वैषागुम् हेड इमहे ये क्षेमागुम् रुद्रा अभितो दिक्षुश्रिता सहस्र शो वैशागु हेड इमहे ये क्षेमागु रुद्रा अभितो दिक्षु श्रुता सहस्र शो वैशागुम् हेड इमहे गङ्गा यु आर् आप्ट्र दिक्षु नो डाप्ट् सहस्रशु ओके सहस्रशो वैशागुम् इस् वन् वर्ड् बिको दिक्षु दिक्षु So So interesting, is is is. actually two Dikṣu-śrita-śahśrashita-śahśrashita-śahśrashowai-śagum what the splitting is. So you श्रिता सहस्रशो वै शागुम् सो इहस्रशः अवै शागुम् slight वट् after Dikṣu and there's no pause after sahasrasho vai shagum okay, like yeah sorry pankaj my lung power is not back yet um, okay. so i don't i do this i'll take a break at dikshu okay. and then uh, i'll continue that's the rest huh? yeah. and then you want okay. to say sahasrasho little bit because it's actually a two matra vowel sahasrasho vai shagum if you want to say that because that okay. how it is but you uh, see what is when uh, i mean for you? तिङ्क् वन् क्विक् ब्रत् इन् द मिडल् शुड् बि ओके ऐ विल् ट्रै ये क्षेमागुं रुद्रा अभिथो दिक्षु श्रुता सहस्रशो वैशागुं हेडमहे ये ये क्षेमागुं रुद्रा अभिथो दिक्षु श्रुता सहस्र ैशागुम् हेडईमहे चे मागम् रुद्रा अभितो दिक्षु श्रिता सहस्रशोभैशागुम् हेडईमहे ये चे रुद्रा अभितो दिक्षु श्रिता सहस्रशोभैशागुम् हेडईमहे vai shagum comes down okay dasha and g is both down vai agum okay. heda imhe okay. ye che magam rudra abito dikshu srita sahasra sho vai shagum heda imhe right okay sujatha i <coughs> want to try ये चे मागुम् रुद्रा अबितो दिक्षुश्रिता सहस्रशो वैशागुम् हेडईमहे ये चे मागुम् रुद्रा अबितो दिक्षुश्रिता सहस्रशो वैशागुम् हेडईमहे श्रिता सहस्रशो वैशागुम् द जाय्निङ्ग् इस् दर्विताः लैक् नो वैशागं टु प्रोनौन् दर् अदर्ैस् यु कम्पेक्स्हस्रोगम् Let me try okay. that one. Okay. I would better Ye. to do the double Sakara instead of Sritah yeah. Sahasra Shovay Shaham because you will forget and say okay. Sritah. Okay. Got it. Okay. Let me try. Okay. Okay. Yeche Magum Brudra Abito Dikshur Shritah Sahasra Shovay Shahum Heda Imahe Correct. Okay. Sunita, you want to try? े चे मागुं रुद्रा अभितो दिक्षुश्रुता सहस्रशो वैशागुं हेड इमहे ये चे मागुं रुद्रा अभितो दिक्षुश्रुता सहस्रशो वैशागुं हेड इमहे चे मागु रुद्रावितो दिक्षु श्रुता सहस्रशो वैशागुम् हेड इमये ये क्षेमागुम् रुद्रा दिक्षु श्रुता सहस्रशो वैशागुम् हेड that why is little higher that's all sahasra sho vai shakum so then the shagum will be very pronounced coming down that's all okay no problem but just be careful that's all you ma nam rudra adito dikshu sita sahasra sho vai shakum he dagimahe so when you make the why higher the shagum will be come down it will be you can feel the difference all, okay, okay. नेक्स्ट् द नेक्स्ट् वन् असौ असौयो वसर्पति असौयो वसर्पति असौयो वसर्वीलग्रीवो विलोहितः नीलग्रीवो विलोहितः नीलग्रीवो विलोहितः असौ यो वसर्पतिनीलग्री वो विलोहितः असौ यो वसर्पतिनीलग्री असौ यो वसर्पतिनीलग्री अदृश्य उदैनम् अदृशन्ु धार्यः अदृशन् अदृशन्नुदहार्यः adrishanna drishannudaharyah utainam gopa adrishanna drishannudaharyah utainam gopa adrishanna drishannudaharyah let's do the next sentence and then we'll try to do the three sentences together but individually so i think it'll be better that way right you get a Uh -huh, uh -huh. उतैनम् विश्वा भूतानि उतैनम् विश्व भूतानि उतैनम् विश्व भूतानि भूतानि षोटिकार उतैनम् विश्व भूतानि ऊतैनम् विश्वा भूतानि उतैनम् विश्वा भूतानि स दृष्टो मृडयाति नः स दृष्टो मृडयामिनः सदृष्टो मृदयातिनः उतैनम् विश्वा सदृष्टो मृडयातिनः विश्व मृदयाति नः उतैनम् विश्व भू भूया विश्व मृदयाति नः ऐ हि इट्स् नोट् विश्व विश्व उतैनं विश्व dṛṣṭo mṛḍayātinaḥ suda viṣvā is high and it's a dīrgha okay so i heard the viṣvā it's not viṣvā it's a viṣvā it's a dīrgha ākara so shall we try the three sentences together ah uh -huh. so yes once hari uh, uh, uh. <coughs> say uh, say that again tagini yeah, could you please chant that one one time all three of them together okay sure असौ यो वसर्पति नीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् विश्वा भूतानि सदृशतो मृडयाति नः असौ यो वसर्पति नीलग्रीवो विलोहितः उतैनम गोपा अदृशन् अदृशन्नुदहार्यः उतैनं विश्वाभूतानि सदृष्टो मृडयाति नः महेशन् ीभो विलोहितः उतैनं गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् विश्वा भूतानि स दृष्टो मृडयातिनः दृष्टो इसे ओकारा दीर्घ ओके सो मेक् इट् यू स दृष्टो मृडयातिनः सदृष्टो मृडयातिनः नो ह्रिस्व ओकारा इन् संस्कृतम् इट्स् आल् बोत् टु मात्रा सदृष्टो मृडयातिनः उतृष्टो मृडयातिनः करेक्ट् स्टच्छति प्राब्लम् असोभ्यो लग्रीवो विलोहितः उतैनम् गोपा अदृशन् अदृशन्नुदहार्यः उतैनम् विश्वा भूतानि सदृष्टो मृडयाति नः okay. सुनिता असव्यो वसर्पतिनीलग्रीवो विलोहितः उतैनं गोपा अदृशन्नदृशन्नुदहार्यः उतैनं विश्वा भूतानि स दृष्टो असव्यो वसर् नीलग्रीवो विलोहितः उतैनं गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् विश्वाभूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे ये अतो ये अस्य सत्त्वानोऽहं तेभ्यो करं नमः okay shall we try the two sentences together okay once together we will say once and then we can try individually okay okay 1 2 3 <speaking in foreign language> namo asmi navi vayatahsrakshaya me durshe atloye asya sattvanoham tebhi no charan namaha हा ओके नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीदुषे अतो ये अस्य सत्वा नोऽहं तेभ्यो कर नमः नमो सोरि ीवाय सहस्राक्षाय मीदुषे अथो ये अस्य सत्त्वानोऽहं तेभ्यो नमः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अतो ये अस्य स स्वानोऽहम् तेभ्यो करन् नमः नमो अस्तु नीलग्रीवाय सहस्राक्षाय अस्य नमो अस्तु नमो अस्तु नीलग्रीवाय सहस्ताक्षाय मीदुषे अतो ये अस्य सत्त्वानोऽहम् तेभ्यो करं नमः <clears throat> satva is high and noham is, uh, is lower okay at hu ye asya satva noham tebhyo kar namaha okay so that is you uh, did satva noham on the same level so satva noham so satva is high noham no is lower than satva okay do you want to do one more time yeah ye asya sat टुगेदर्हम् असौ यस्ताम्र अरुण ब्रिङ्ग् बेर्टल् तेभ्यो करन्नमः ye jivanado apinoto chit chhe gachyo ay hoy rasuru hede ni he aso vi va nu pa jan ne ta ki lo ida utai namay paapada na nashanu ुदैनं विश्वाहि दृष्टो हृदयिनः नमो लीरे अथोपानोहं देव्यो म्रो अरुण उतभब्रुसु भुमङ्गलः ये क्षेमागुं रुद्रा अभि अभितो दिक्षु श्रुता सहस्रशो वैशागुं हेड इमहे असौ यो वसर् हा सॉरि आवर्षी सत् सन्दे असौ यो वसर्पतिनीलग्रीवो विलोहितः उतै उतैनम् गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् विश्वा भूतानि स दृष्ठो मृडयाति नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अथो ये नोहं नोहं ते अतो ये अस्य सत्त्वा नोहम् तेभ्यो नमः असौ यस्ताम्रो अरुण उत भद्रुस्तु मङ्गलः ये चे मागम् रुद्रा अभितो दिक्षु ितासहस्रशो वैशागुम्भेड इमहे असौ यो वसत्पतिनीलग्रीवो विलोहितः उतैनं गोपा अदृशन्नदृशन्नुदहार्यः उतैनं विश्वाभूतानि सदृष्टो मृडयाति नमो अस्तु क्षायमीदुषे अथो ये अस्य सत्त्वानोऽहम् तेभ्यो करन् नमः सत्त्वानोहम् सत्त्वानोऽहम् तेभ्योकरन्नमः सत्त्वानोऽहम् ओके सत्त्वानोहम् हम् इस् रगुलर् सत्त्वानो अथोयेहम् तेभ्योकरम् नमः ओके असो यस्ताम्रो अरुण उत भभ्रु सुमङ्गलः ये चे मागुम् रुद्रा अभितो दिक्षुश्रुता सहस्रशो वै शागुम् हेड इमहे असो वसर्पति नीलग्रीवो विलोहितः उतैनम् गोपा अदृशन् अदृशन्नुदहार्यः उतैनम् विश्वा भूतानि स दृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अतो सत्त्वाह सोरिषे मीडुषे अतो ये अस्य सत्त्वानोऽहम् असौव्यस्ताम्रो अरुण उत बभ्रुसु ये चे मागुम् रुद्रा अभितो दिक्षुश्रुता सहस्रशो वैशागुम् हेडैमहे असौभ्यो वसर् पतिनीलग्रीवो विलोहितः उतैनं गोपा अदृशन्नदृशन्नुदहार्यः उतैनं विश्वा भूतानि सदृष्टो मृडयाति नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अथोये ये असौ यस्ताम्रो अरुण उत भभ्रुसुमङ्गलः ये चेम ये चे ये चे मागुं रुद्र े मागुम् रुद्रा अभितो दिक्षु श्रुता सहस्रशो वैशागुम् हेद्रशो हे मागुम् रुद्रा, अ... रुद्रा अभितो दिक्षु श्रुता सहस्रशो वैशागुम्हेडिमहे असव्यो नीलग्रीवो विलोहितः उतैनं उतैनं गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् विश्वा भूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीदुषे अतो ये अस्य तेभ्यो तेभ्योऽकरन् नमः you have to be quick still careful about the ups and downs couple of places you missed those okay so okay next time i have already sent you the recording of this thing right with the, the chalekere brothers they're actually very slow chanting they have the right pronunciation yes. there. so you can listen to that now that you know the words you can just mimic what they are saying yeah. okay okay hey, if we can can we do the laguniyam once together ba Uh, not today, I don't have time, but uh, okay. next okay. time we can do it. Okay. So uh, let us stop here. We will do uh, three okay. Lokaha Samastaha and then stop. Okay? Om Lokaha Samastaha Sukhino Bhabantu Lokaha Samastaha Sukhino Bhabantu ोकाः समस्ताः सुखिनो भवन्तु ॐ शान्ति ॐ श्रीगुरुभ्यो नमः हरिः